इष्टम् दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीं व्रतोपवासैर्बहुभिः कृतं भवति भीष्मयत् सर्वं तदनपत्यस्य मोघम् भवति निश्चयात् सोनपत्यश्च वृद्धश्च मिथ्याधर्मानुसारकः हंसवत् त्वमपीदानीं ज्ञातिभ्यः प्राप्नुयावधम् एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा भीष्मयत्तदहं यत्तदहं सम्यग् वृद्धः किल समुद्रान्ते कश्चिद्धं सोभवत्पुरा धर्मवागन्यथा वृत्तपक्षिणः सोऽनुशास्ति च धर्मं चरतमाधर्ममिति तस्य वचः किल पक्षिणः शुश्रुवुर्भीष्म सततं सत्यवादिनः अथ स्य भक्ष्य मजह्रुस्सुद्रजलचारिण अंडीष्मे धर्मा शुश्रुम तेज तम्याशे निक्षिप्याश्राभ से मज्जत चर भीष्मिण तेषामण्डानि सर्वेषां भक्षयामासपापकृत् सहंसः सम्प्रमत्तानामप्रमत्तस्वकर्मणि सह तत प्रक्षीयमाणेषु तेषु तेष्वण्डजोपरः अशङ्कतमःप्राज्ञः स कदाचिद्दर्शः तत स कथयामास दृष्ट्वा हंसस्य किल्बिषम् तेषां परमदुःखार्तः सपक्षी सर्वपक्षिणाम्